नमो नमः नमस्कारः नमो नमः भगिनी नमो नमः नमस्कारः नमो नमः अस्माकं गीतासोपानं प्रथमभागवर्गं प्रति सर्वेषां स्वागतम् प्रथमतः तु प्रार्थनया आरम्भं कुर्मः एषः गीतावर्गः अतः प्रार्थनायाः स्वरूपं किञ्चित् भिन्नं भवति स्क्रीन् शेर् करोमि सर्वे <coughs> अद्यदिने अहं वदामि अनन्तरं अग्रिमे साप्ताहतः अन्यकोपि मध्ये दृश्यते प्रथमः श्लोकः अस्ति नमस्ते बेनि नमो नमः नमस्ते स्वागतम् धन्यवादबेनि प्रथमः श्लोकः ध्यानश्लोकः इति अनन्तरं द्वितीयः अस्ति गीतामहात्म्यम् इति सूचयति अनन्तरम् अथ ध्यानं शान्ताकारं भुजदशम् एवं वयं कुर्मः अद्यदिने प्रथमे दिने अहं वदामि अग्रिमे सप्ताहे भवत्सु कोऽपि वदेत् पश्यन्तु अत्र नमोऽस्तु ते व्यास विशालबुद्धे पुल्लारविन्दा यतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः पार्थो वत्स सुधिर्भोक्ता दुग्धम् गीतामृतम् महत् अथ ध्यानम् शान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिभिर्धानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथं। अत्र प्रथमः श्लोकः अस्ति ध्यान ध्यानश्लोकः इति तत्र पश्यन्तु नमोऽस्तु ते व्यासविशालबुद्धे भगवान् व्यासः सर्वे जानन्ति व्यासमुखात् एव भगवद्गीता उद्धृता तत् व्यासविशालबुद्धे व्यासः नेत्रा, फुल्लार फुल्लारविन्दायतपत्रनेत्र फुल्लारविन्दायतपत्रनेत्र इत्युक्ते कथं वदामः तत्र नेत्र, नेत्र।, नेत्र। व्यासमुनेः नेत्रे तत्र ऐज़् लैक् -like बेटल्स् आफ् लोटस् फ्लावर् परन्तु तत्र कमलपुष्पं कथं फुल्लार इत्युक्ते फुल्लि ब्लोन् लोटस् फ्लावर् इति येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः येन त्वया इत्युक्ते बाय् व्यासमुनि इति बाय् हुम् वा भारतैलपूर्ण ज्ञानमयः प्रदीपः प्रज्वालितः अत्र दृश्यते कर्मणि प्रयोग सो so वी केन् से बै हूम् दि लेम्प् आफ् नालेज् फिल्ड् वित् द आयिल् तैलपूर्ण भारततैलपूर्णम् इत्युक्ते It is filled with the oil of Mahabharata इति प्रदीपः अस्ति दीपः अस्ति कीदृशः दीपः ज्ञानमयः ज्ञानेन सहितः ज्ञानेन युक्तः इति दीपः एवमस्ति द्वितीये श् <clears throat> श्लोके तत्र वर्णनमस्ति महात्म्यं सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः सर्वोपनिषदो गावो इत्युक्ते तत्र उपनिषदात् उपनिषद गोस्वरूप इति गावो इत्युक्ते गौस्वरूपः सर्व उपनिषदः गोपालनन्दनः श्रीकृष्णः दोग्धा इत्युक्ते तत् मिल्क् मेन् गोपाल इति दुहति सः दोग्धा दुह इत्युक्ते टु मिल्क् सो देट् मिल्क् मेन् गोपालनन्दन दोग्धा पार्थो वत्सः वत्सः इति अतीव सुन्दरः तत् वत्सः इत्युक्ते तत्र वात्सल्यभावना पार्थः पार्थ इत्युक्ते अर्जुनः कौंटेय वेरी डियर एंड नियर टु गोपाल पाथो वत्स्य सुधी ही भोक्ता दुगधं गीता महत। गीतामृत महत्था भोक्ता तत भोक्ता ग्रहण कौती हाँ सुधी अमृत तत्म ग्रहण कौती अमृत अमृत सारूपेण त्रहण कौती दुग्धम् गीतामृतं महत् तत् यद् दुग्धम् अस्ति तत् अमृतम् गीता अमृतम् एव इति दत्तमस्ति अनन्तरम् श्रीविष्णोः ध्यानमन्त्रम् शान्ताकारम् भुजगशयनम् तत्सर्वं वर्णनं वर्तते विष्णोः शान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् सर्वत्र पश्यन्तु द्वितीयान्तपदानि सन्ति विश्वाधारम गगन सदशं मेघवर्णम शुभांगम लक्ष्मीका कमलनयन योगी, धान गम्यं, योगी ध्यान ध्यानगम्योगि तृतीय वंदे विष्णु बवयरं सर्वोकनाथम एक विष्णु अहम वंदे आरंभे वह ध्यानश्लोक अनन्तरं महात्म्यश्लोकः अनन्तरं विष्णो कृत्वा प्रतिदिने वयम् आरम्भं कुर्मः अस्तु इदानीम् एकः प्रश्नः मम अद्यदिनारभ्य वयं सोपानं प्रथमभागः एतस्य अध्ययनं कुर्मः किमर्थं गीता पठनीया भवत्सु कोऽपि वदति वा किमर्थं तत् गीतापठनं कः लाभः भवति गीतापठनेन कोऽपि वदति वा ज्ञानार्थं सम्यक् उत्तमम् इतोपि भगिनी गीता, गीता, न्यानार्त। गीता जीवनस्य मौल्यः वदति सत्यं वदतु भगिनि तदेव भगिनि अस्माकं जीवनस्य पठ्यपुस्तकम् इति सम्यक् सम्यक् धन्यवादः अत्र पश्यन्तु तत्र केवलं तत्र अध्यात्म इति विषयग्रन्थः अस्ति वा भगवद्गीता न केवलं तत्र फिलोसोफि एव वर्तते इति न हा अध्यात्मविषयग्रन्थः भगवद्गीता एवं न गीताग्रन्थः यथा भगिनी उक्तवती जीवनविद्या जीवनविद्या जीवनविद्यायाः बोधनं करोति प्रसङ्गः कः कदा भगवता उक्ता कस्मिन् प्रसङ्गे वदन्तु अर्जुनः युद्धं न करोमि इति उक्तवान् तस्य सन्दर्भे इति उत्पन्नः गीता सत्यं सत्यप् तत्र युद्धप्रसङ्गः प्रचलत् आसीत् तस्मिन् प्रसङ्गे अर्जुनः पश्यन्तु प्रथमः अध्यायस्य नाम अर्जुनविषादयोगः इत्युक्ते तत्र हृदयदौर्बल्येन पीडितः अर्जुनः विषादयुक्त mm. अन्तःकरण अर्जुनस्य तादृशं mm. mm. स्थि तादृशा अर्जुनस्य तस्मिन् प्रसङ्गे अर्जुनम् गीता उपदिष्टा अत्र श्रीकृष्णेन तस्मिन् प्रसङ्गे एव गीतायाः उपदेशं दत्तवान् इतोपि तत्र केवलं तत्र अर्जुनाय उपदिष्टा गीता इति वक्तुं शक्नुमः वार्जुनः न कथं तत् अर्जुन केवलनिमित्तमात्रेण तत्र इदानीं वयमपि संसारे बहवः प्रसङ्गः तत्र अस्ति युद्धक्षेत्रमेव युद्ध बहवः hmm. प्रसङ्गाः तत्र युद्धक्षेत्र एव दृश्यते hmm. वयमपि hmm. कश्चित् समये दुःखेन त्रस्ताः हृदयदौर्बल्येन ग्रस्ताः hmm. सर्वान् कृष्णः अस्मान् सर्वान् कृष्णः बोधयति गीतापठनं तु सर्वे कुर्वन्ति एव गृहे गृहे गीताप्र पठनं तु प्रचलति एव परन्तु यदा वर्गस्य उद्देशः कः तत् यदा वयं व्याकरणज्ञानम् अनुसृत्य प्रत्येकं शब्दं स्वीकृत्य तस्य अर्थ अवगमनं सम्यक् कृत्या भवेत् व्याकरणज्ञानम् अनुसृत्य वयं यदा कुर्मः तदा अर्थ इतोपि स्पष्टतया अवगतः अर्थस्य अवगमनं इतोपि स्पष्टतया भवति इति विचार यत् इत प्रामाणिकमर्थमिति वदामः चेत् तत् व्याकरणज्ञानेन सम्भवति अस्माकं वर्गस्य उद्देशः तत्र प्रवचनमात्रे इति नास्ति परन्तु पश्यन्तु वर्गः साहाय्यकारी भवेत् किमर्थं व्याकरणज्ञानस्य साहाय्येन वयं स्वयं स्वयम् एकैकं श्लोकं स्वीकृत्य तस्य अन्वयः कथं भवति तेषु कानि पदानि सन्ति कर्तुपदं किमस्ति कर्मपदं किमस्ति क्रियापदमस्ति का सप् सप्तम्यन्तपदमस्ति का वषष्ठ्यन्तं पदमस्ति वा तेन कथम् अर्थबोधः जायते एवम् अधिकतया अधिकस्पष्टतया अस्माकम् अवगमनं भवेत् इति वर्गस्य उद्देशः पश्यन्तु अत्र पुनः एकवारम् अहं स्क्रीन् शेर् करोमि अत्र गीतासोपानं प्रथमः भागः परन्तु तत्र बहूनि सोपानानि सन्ति बहूनि सोपानानि सन्ति कथम् पश्यन्तु अत्र पुस्तके तद्दत्तमस्ति बहूनि सोपानानि कथमिति पश्यामः दृश्यते दृश्यते वा गीतासोपानं प्रथमः भागः भवन्तः अत्र अस्ति अनन्तरं गीतासोपानं द्वितीयः भागः गीताप्रवेशः प्रथमः भागः गीताप्रवेशः द्वितीयः भाग अनन्तरं संस्कृतम् अभ्यस्यन्तु गीता पठन्तु इति हा तत्र बहूनि सोपानानि सन्ति वयं सर्वे अत्र स्मः परन्तु लाभः कः शनैश्चनैः अवगमनार्थं व्याकरणस्य विषये चिन्तनमपि भवति परं तत् अस्माकं स्वयम् एव अन्वय अन्वयः किं नाम अन्वय अन्वयः इत्युक्ते तत्र लीनियर् अरेञ्ज्मेण्ट् तत्र कर्तुपदं कर्मपदं क्रियापदं नो चेत् तत्र द्वितीयान्तपद वा तृतीयान्तपदमस्ति वा सर्वं दृष्ट्वा तत्र अर्थदृष्ट्या लीनियर् अरेञ्ज्मेण्ट् इति वक्तुं शक्नुमः तत् स्वयम् एव वयं कर्तुं शक्नुमः इति अस्माकम् उद्देशः वर्गस्य अस्त अदारणेण स्वर स्वूप कथम यदा गीता पु यहाँनिषद सारभूता उपनिषदो सर्वोपनिषदो गाव वक्त वक्त अस्त तपने उपनिषद सारभूता उपनिषदां सार किम वदती? वयं सर्वे उपनिषदा सारुदार वे पर्रह्मष्टी गीता वजती पर्रह्मे कि वो चिंता मत अ पर्रह्मस्वे सत्सव अस्ति वयं सर्वे आत्मा अस्ति हा इत्युक्ते तत्र मूलतः परब्रह्म परब्रह्मन् इति नपुंसकलिङ्गिशब्दः परब्रह्मः तस्य एव स्वरूपः परब्रह्म एतस्य स्वरूपः वयं हा परब्रह्म इत्युक्ते पर... तत्र सुप्रीं कान्शियस्नेस् इति वक्तुं शक्नुमः वदतु स्वस्वरूपं शक्यते इत्युक्ते तत्र सुप्रीं कान्शियस्नेस् इति परब्रह्म तस्य एव स्वरूपेण वयं तत्र भवामः इति इत्युक्ते यदा वयं परब्रह्मस्वरूपाः तदा दुःखस्य कोऽपि कारणः न भवेत् किमर्थं दुःखं परन्तु तत् नास्ति अस्माकं जीवने दुःखमस्ति कदा कदा सुखमागच्छति कदा कदा नैराश्यमपि आगच्छति कदा कदा किञ्चित् लोभः अपि मनसि आगच्छति मत्सरः द्वेषः अपि कदा कदा आगच्छति किमर्थं तत्र कारणं वर्तते वयं सर्वे परब्रह्मस्वरूपाः एतत् न ज्ञात्वा वयं व्यवहारयामः इति कारणम् अज्ञानतः तत् वर्तनं भवति इत्युक्ते तत्र वयं जीवनं जीवामः किमर्थं बाह्यसुखाद् आधारेण बाह्यसुखस्य आधारेण इन्द्रियाणां सुखं यत् गीता गीतायां दुःख दत्तमस्ति तत्र इन्द्रियाणां सुखम् इन्द्रियाणाम् अनुसृत्य वयं कदा कदा दुःखिनः भवामः कदा कदा सुखिनः भवामः यदा दुःखमनुभवामः तत् सर्वे चिन्तां कुर्मः कदा कदा वयं चिन्तयामः मम एतादृशायाः अवस्थायाः कः कारणः एषः एव कारण अन्य एव कारणः सा एव कारणीभूता एव वस्तुतः सर्वेषाम् अपि अवस्थायाम एव अवस्थायाण कगवता प्रतिपा प्रतिपास्ती खल श्लोकमस्त उधत्म वोप जयंती भगिनी स्मरती व उधरे दात्म आत्मा हाँ वद पूर्णश्लोकं ज्ञात्वा वक्तुं श न शक्यते बेहिनी किन्तु सारभूतम् अहं वदामि सारभूतेन हा वदतु वदतु आत्मा एव आत्मानेन एव आत्म आत्मनस्य उद्धर उद्धरणं भवति आत्मा एव ऋतुः आत्मा एव बन्धुः अपि भवति आत्मा एव सखा उत्तमम् उत्तमं, उत्तमं तथैव आत्मा एव अस्माकं बन्धुः अस्माकं रिपुः आत्मा एव इत्युक्ते स्वयं अस्माकं दौर्बल्यानि वा तत्र बलानि स्ट्रेन्त् वा दौर्बल्यम् इति तद्दरेत् आत्मानाम् आत्मानं न आत्मानम् अवसादयेत् आत्मये आत्मैव ह्यात्मनो बन्धुः आत्मैव रिपुरात्मनः सम्यक् सम्यक् सम्यक् उत्तमं इत्युक्ते स्वेन एव स्वेन इत्युक्ते स्वयम् एव हा यदि मया करणीयमस्ति तत् मया एव मम दौर्बल्यं किमस्ति मम बलं किमस्ति अहं किं कर्तुं शक्नोमि किं न कर्तुं शक्नोमि इति स्वेन एव बलानि वा दौर्बल्यानि गणनीयानि हा अनन्तरं पुनः पुनः तस्मिन् विषये चिन्तनं कृत्वा दौर्बल्यस्य न्यूनीकरणं कथं भवेत् तत् केन करणीयम् मया एव करणीयं स्वेन एव करणीयम् तत्र भगवतः तत्र वचनमेकमस्ति योगक्षेमं वहाम्ययम् अनन्याश्चिन्तयन्तो मां येजना पर्युपादने परिद्राणाय साधूनां विनाशाय च दुष्कृतं धर्मसंस्थापनार्थम सम्भवामि युके युके यदा यदा आ, यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युक्तानां अधर्मस्य अभ्युक्तानाम् अधर्मस्य तथा सृजाम्यहम् इति इतोपि तत्र मम एकः विचारः तत्र योगक्षेमं वहाम्यहम् इति भगवता इत्युक्ते पश्यतु श्लोकः तत्र अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहां इत्युक्ते भगवान् अस्माकम् अशुरेन्स् ददाति किमर्थम् अहम् अस्मि अहमेव योगक्षेमं वहामि अत्र योगः योगः क्षेमः तत्र सामासिकशब्दः अस्ति योगः इत्युक्ते अप्राप्तस्य प्राप्तिः भवति क्षेमः इत्युक्ते तस्य रक्षणं भवति यत् अस्माभिः प्राप्तं तस्य रक्षणं भवेत् खलु क्षेमः नाम यत् प्राप्तं तस्य रक्षणम् इदानीं श्रीकृष्णः वदति तत् अहम् एव करोमि इत्युक्ते द्वयोः द्वयोः दायित्वं यदि भगवत् भगवता स्वीक्रियते तत् अस्माकं किमपि कार्यं शेषः नास्ति नवा, शेषं न वा सर्वं सः एव करोति वा ah, उत्तमम् इत्युक्ते यदा यदा किमर्थं अनन चिंतनों ये जन पर्युपाते भगवत उपासना यहाँ सेल्फ एफर्ट भगवत उपासना सदा पूजा कर्े न उक्तम उतम गीताेफ् एफर्ट तर्मा पर अहङ्काररहितत्वम् इति महत्त्वपूर्णः विषयः गीतायां स्वस्य कर्माणि भगवती अर्पणं करणीयं स्वस्य कर्माणि कर्म तु प्रचलति एव कर्म करणीय एव परन्तु भगवति अर्पणं कृत्वा इदं न मम इदं न मम अहं करोमि इति वृथाभिमानः न ना, नैव सर्वं श्रीकृष्णार्पणमस्तु इति विचिन्त्य यदा जीवनं जीवन्ति तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहं, तेषाम् एव योगक्षेमं, अहम्, त्वयं करिष्यामि इति दत्तमस्ति इत्युक्ते इदानीं कमिंग टु अवर् क्लास् वट् इज अवर् एम् एकैकम् शब्दम् स्वीकृत्य वा एकैकम् व्याकरण अंशम् स्वीकृत्य सर्वेषाम् शब्दानां स्वयं अवगमनम् कृत्वा अर्थबोधनस्य स्वयं एव प्रयत्नं करणीयम् तथा कस्य आवश्यकता अस्ति व्याकरणस्य आवश्यकता व्याकरणं पठनं भवेत् तेन एव सुलभतया स्वयं एव वयम् अर्थस्य अवगमनं कुर्मः इति अस्ति अस्माकं समीपे गीतासोपानं प्रथमः भागः इति पुस्तकमस्ति तस्य आरम्भं कुर्मः अस्तु तत्र प्रथमे प्रथमाविभक्तिः इति दत्तमस्ति प्रथमा विभक्ति तत्र पुस्तकस्य अध्ययनं तु वयं कुर्मः परन्तु तस्मात् प्राक् किञ्चित् एकं श्लोकं स्वीकृत्य कथं तत् प्रथमान्तपदम् आगच्छति कथं तत् प्रथमा विभक्तिः दृश्यते तत् पश्यामः श्लोकः आरम्भं करोमि अम्बिकापतिमहोदय भवान् आरम्भं करोति वा श्लोकं पठति भवतः <coughs> गीता षष्टि तिस्र यो मां पश्यति सर्वत्र सर्वं च मयि पश्याति हं न प्रणश्यामि स मे न प्रणश्यामि प्रणश्यति प्रणश्यति व्योमां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहं न प्रणश्यामि स प्रणश्यति इति अस्ति मम ध्वनिः श्रूयते वा आम, आम, श्रूयते आम् भगिनी आम बगी। आम सम्यक् श्रूयते अत्र पश्यन्तु अत्र अपि एश्युरन्स् वर्तते तस्य अहं न प्रणश्यामि स मे न प्रणश्यति अत्र प्रथमान्तं पदानि कानि तद्वयं पश्यामः <coughs> अस्तु इदानीं भारतमहोदय भारतमहोदय अस्ति वा भारतमहोदय भवान् सन्धिविग्रहं कृत्वा वक्तुं शक्नोति वा अत्र okay. यो इति मूलतः यः इति अस्ति यः माम् यः आम् पश्यति सर्वत्र सर्वी पश्यति तस्य अहं तस्य अहं तस्य अहं न प्रणस्यामि प्रणस्यामि तत्र स इति अस्ति वास्तविक तत् सः इति अस्ति सः च मेन प्रणश्यति स तत्र विसर्गस्य लोपः भवति स इति दृश्यते श्लोके तत् मूलरूपेण सः इति अस्ति सः च मेन प्रणश्यति इति अस्ति सम्यक् अत्र प्रथमा विभक्तिः कुत्र दृश्यते महोदये वक्तुं शक्नोति वा सः um, अनन्तरं um, प्रथमा दृश्यते यः तत्र अपि अनन्तरम् अहं तत्रापि प्रथमा दृश्यते एकनिमिषम् एकनिमिषम् एकनिमिषम् yeah. um, yeah, so... अहं तत्रापि प्रथमा दृश्यते एवं खलु right. तस्या तस्य अहं न प्रणश्यामि सर्वेषु स्थलेषु तत्र यह, अहम, सः इति प्रथमा प्रथमान्तपदानि यः सः अहम् अत्र श्लोके किं दत्तमस्ति श्लोके किं दत्तमस्ति यह, यह, यह पुरुषः माम् माम् इत्युक्ते भगवतम् माम् इति तत्र माम् इत्युक्ते तत्र परमेश्वरम् इति परमात्मा पश्यति सर्वत्र यः पुरुषः मां सर्वत्र सर्वत्र इत्युक्ते तत्र सर्व सर्वेषु भूतेषु सर्वप्राणिमात्रेषु पश्यति सर्वं च मयि पश्यति इत्युक्ते मै मै इत्यस्य सप्तमी परमात्मनि पश्यति तस्य अहं परमात्मा इति वदति अहं परमात्मा न प्रणश्यामि सः च मे न प्रणश्यति तस्य मम एकात्मका एकात्मका भाव वर्तते स्वरूपः समानः अस्ति इत्युक्ते सः सर्वदा मद्भक्तः एव तस्य भक्ति अचला अस्ति सर्वाणि भूतानि मत्स्थानि उपधारय इति अत्र इतोपि एकः अंश व्याकरणदृष्ट्या प्रणश्यामि हा धन्यवादः भारतमहोदयः धन्यवादः धन्यवादः तत्र अग्रिमे तत् वीणा भगिनी वीणा भगिनी वक्तुं शक् तत्र क्रियापदमस्ति प्रणश्यामि प्रणश्यामि प्रणश्यति तत्र धातुः कः वक्तुं शक्नोति वा द्रा... प्रणश्यामि तत्र नश्यति इति पदं जानाति वा नश्यति पदमस्ति खलु अतः तत्र नश् इति धातु अस्ति नश् इति धातु अस्ति तस्मात् प्रा आगच्छति पृथिक्स् इति उपसर्गः अनन्तरं नकारस्य नत्वं भवति प्र आगच्छति यथा प्रनश्यति तस्य नकारणरूपेण दृश्यते इति उपसर्ग उपसर्ग आगच्छतु नश्यति इति किम तत्तु भवती जानाति किमर्थमस्ति नश्यति इत्युक्ते परन्तु यदा उपसर्ग आगच्छति चेत् उपसर्गेण धात्वर्थाः बलात् अन्यत्र नीयते उपसर्गेण तत्र अर्थः भवति ृदि सन्निविष्टः इत्युक्ते वेरि क्लोस् टु हार्ट् इति भवति तस्य अहं न प्रणश्यामि इत्युक्ते सदा सर्वदा little... mm -hmm. मम हृदि स्थितः इति सचमेन प्रणश्यति सचमेन प्रणश्यति न प्रणश्यामि इत्युक्ते तत्र प्रकर्षेण नाशनम् इत्युक्ते प्रकर्षेण नाशनं न भवेत् इत्युक्ते मम रुधिः सः सन्निविष्टः भवेत् न प्रणश्यामि प्र इति उपसर्गात् अर्थ न प्रणश्यामि इति किमर्थं हृधै मम हृधि एव सः समावेतः सन्निविष्टः सदा सर्वदा मम भक्तः सः मम भक्तः एव भवेत् सः च मेन प्रणश्यति तस्य अहं न प्रणश्यामि इति तस्य नाशनं प्रकर्षेण नाशनं न ना भवेत् इत्युक्ते मम हृदय एव सः भवेत इति अस्तु भगिनि अस्तु भगिनि इदानीं प्रणश्यामि इति क्रियापदं तदा कर्तुपदं किं भवितुमर्हति कर्ता mm. गच्छामि इति वदामि तद् भवती किं वदति गच्छामि वदामि कर्ता किं भवेत् तत्र uh, uh... इदं श्लोके श्लोकेन श्लोकेन श्लोके व्याकरणदृष्ट्या गच्छामि वदामि पृच्छामि तत्र कर्ता किं भवति सम्यक् तत्र समानादिकरणमस्ति तत्र अहम् एव कर्ता भविष्यति अहम् एव कर्ता कर्तृरूपेण आगच्छति यथा तत्र प्रणश्यामि वदामि गच्छामि वह अहमद कर्ता हाँ अहम प्रथम पदम त्र कर्तूपेण आग्छति परंतु यहां नश्य गदती तदा कर्तूपेण कस संना अनम सगछति सा आगछति तत् आगछती एवं इत्युक्ते अत्र प्रणश्यामि अस्ति चेत् प्रथमाविभक्त्यां पदम् अहम् आगच्छति प्रणश्यति अस्ति चेत् प्रथमाविभक्त्यां पदं सः आगच्छति इदानीं वदसि वदसि इति अस्ति चेत् प्रथमान्तं पदं कः आगच्छति वदसि वदसि गच्छसि त्वम् अति अहम् अस्मि सः अस्ति एवं हा तत्र अहम् अवदामि सः वदति त्वं वदसि एवं तदेव अस्माकं प्रथमः भागः श्लोकेन तत्र श्लोकं किं वदति तत्र विषयः अत्र युनिटि युनिटि आफ् द सेल्फ् इति अस्ति इत्युक्ते गेट् युनैटेड् एण्ड् देन् परब्रह्म इस् दि सुप्रीम् कान्शियस्नेस् इत्युक्ते यः मां पश्य यः अपि प्रथमान्तपदं यः माम सर्वत्र पश्यति द वन् हू सीस् मी इन् आल् बीङ्ग् सर्वत्र इत्युक्ते सर्वेषु प्राणेषु ओके सो द वन् हू केन् अण्डर्स्टेण्ड् एव्रिथिङ्ग् हेज़् बिन् ब्रह्मा सर्वं च मयि पश्यति इत्युक्ते सर्वं भगवन्तं पश्यति परब्रह्मन् तस्य अहं न प्रणश्यामि स च मेन प्रणश्यति तस्य प्रकर्षेण नाशनम् अहं न करोमि सः मम हृदि हृदय तिष्ठति सः मम हृदयः तिष्ठति अहमपि तस्य हृदय तिष्ठामि एवमस्ति अहमपि मम भक्तस्य हृदि सन्निविष्टः सः अपि मयि सन्निविष्टः तत्र प्र इति प्रकर्षेण सो ऐ वोण्ट् लिव् मै प्रेज़ेन्स् सो ऐ नेवर् लिव् हिस् प्रेजेन्स् नाट् डस् ही विल् लिव् मै प्रेजेन्स् इति इन् शार्ट् विष्ठति ऐ ड्वेल् इन् हिम् एण्ड् हि ड्वेल् इति अर्थः ऐ ड्वेल् इन् हिम् एण्ड् हि ड्वेल् होल्ड् आफ् हिम् नोट् डस् इ लूज् होल्ड् आफ़् मि इति अस्ति कदा यः सर्वत्र समरूपेण मां पश्यति इति स्पष्टमस्ति वा स्पष्टमस्ति स्पष्टमस्ति भगिनि स्पष्टमस्ति इदानीम् अभ्यासस्य विषयः व्याकरणंश पुस्तके यद्दत्तमस्ति चेत् धन्यवादः वीणा भगिनी धन्यवाद धन्यवादः भगिनि धन्यवादः पुस्तके किं किमस्ति तत् पश्यामः दृश्यते दृश्य दृश्यते दृश्यते अत्र प्रथमः प्रथमः पाठ अस्ति विद्धि मां तत्र षष्ठीविषयकः अंशः अस्ति तत् अनन्तरं कुर्मः अस्माकम् अद्य विषयस्य प्रथमा विभक्ति अहं चिन्तितवती तत् प्रथमा द्वितीया तृतीया येन क्रमेण वयं गच्छामः पुरुषः सः इति द्वितीयः पाठ पठामः अधुना अगस्ट् महोदये भवान् आरम्भं करोति वा पठत पुरुषः सः उच्चैः पठत लिख लिखट लिखट च सः सा तत् इषः इषा एतत् तत् वयं कृतवन्त अस्माकं सम्भाषणवर्गे भाषितसंस्कृतं सः पुल्लिङ्गी सा स्त्रीलिङ्गी तत् नपुंसकलिङ्गी एषः एषा एतत् सः एषः द्वयोः मध्ये कः भेदः दूरे समीपे, समीपे एषः हा एषः इति मम समीपः सः इति दूरे अत्र पश्यन्तु तत्र चित्रवर्णनमस्ति श्रीकृष्णभगवान् तत्र अस्ति अनन्तरं पृच्छतः अर्जुनः पुरतः तत्र जयद्रथः एषः जयद्रथः सः सूर्यः दूरे आकाशे तत्र सूर्यः अस्ति पश्यतु तत् सूर्यम् अनन्तरम् अत्र एषः जयद्रथ तत्र एषः जयद्रथः सः सूर्यः इत्युक्ते तत्र इदानीं जयद्रथस्य वधं करोतु इति श्रीकृष्णः सूचयति तत्र कथा अस्ति खलु स्मरन्ति वा सर्वे जानाति वा कस्य वधः अभिमन्यु वीर अभिमन्यु तस्य वधः केन कृतम् सर्वे मिलित्वा तस्य वधः अभवत् परन्तु तत्र प्रमुखतया कः जयद्रथः जयद्रथ जयद्रथः तत्र प्रतिज्ञापूर्वक् अर्जुनः उक्तवान् आसीत् अतः भगवान् तत्र दर्शयति पश्यतु अर्जुन सः सूर्यः एषः जयद्रथः एषः जयद्रथः रणाङ्गणे अस्ति सः सूर्यः आकाशे विराजमानः अस्ति सः सूर्यः एषः जयद्रथः अधुना अग्रिमे पठतु आगस्ट् महोदय शिक्षकः सैनिकः नकुलः द्रोणः गजः सिंहः दीपः सहोदरः रथः बाणः आचार्यः खङ्गः शिष्टः खड्गः खड्ग अत्र कथमस्ति अतीवसुन्दरतया तत्र दर्शनमस्ति तत् एषः इति समीपे सः इति दूरे अतः तत्र अत्र तालिका दृश्यते प्र मञ्जुषा दृश्यते तत्र एषः शिक्षकः एषः सैनिकः एषः नकुलः तावत् वक्तव्यम् अनन्तरं दूरे तत् सः रथः सः बाणः एवं वक्तव्यं वदति वा एषः सः उपयुज्य अवस्थमहोदय भवान् वदति वा तत्र शिक्षकः सैनिकः नकुलः द्रोणः इति अस्ति खलु तत्र चिन्तयतु सर्वे समीप समीपे एव सन्ति शिक्षकः अस्माकं समीपे अस्ति सैनिकः समीपे अस्ति नकुलः अस्ति तत् एषः शिक्षकः एषः सैनिकः एवं वदतु अनन्तरं रथः बाणः आचार्यः तत्र मञ्जुषायां यद्दृश्यते तद्दूरे अस्ति अतः तत्र सः रथः सः एवं वदतु वदति एषः शिक्षकः एषः सैनिकः एषः सैनिकः सः रथः सः बाणः सः आचार्यः तत्र अस्ति महोदय सः शिष्यः लेट् सेकेण्ड् रेक्टेङ्गल् इ दूरे अस्ति फस्ट् वन् इ समीपे अस्ति तत्र एषः शिष्यकः एषः सैनिकः एषः नकुलः एषः द्रोण एण्ड् सोन् अनन्तरं सः रथः सः बाणः सः आचार्यः सः सः खड्गः एवं भवति इदानीं स्पष्ट अस्ति वा पठतु इदानीं वदतु एषः नकुलः एषः एश, द्रोणः एषः एश, गजः एषः सिंहः एषः दीपः एषः सहोदरः सहोदर सहोदर इत्युक्ते किं जानाति वा भगिनी महोदय सहोदर इत्युक्ते कुटुम्बसम्बन्धानि शब्दानि वयं कृतवन्तः खलु अन्य कोऽपि स्मरति वा सः उदरः उदरः हा उदरः इत्युक्ते मदर्स् होम्ब् इति अस्ति खलु सः ब्रदर् इति सहोदरः अस्तु अग्रिमं वदतु सः रथः सः बाणः तत् वदति वा सः रथः सः बाणः सः आचार्यः सः खड्गः सः शिष्यः सः चापः सः रतिकः सः वृक्षः उत्तमम् उत्तमम् अस्ति अस्तु अग्रिमे राधा भगिनी पठति वा आं भगिनी पठति एषा गान्धारी सा कुन्ती शिक्षिका भक्ता माला सेना द्विचक्रिका लता गुलिका गीता गायत्री दूरवाणी द्रौपदी माद्री लक्ष्मीः गति पार्वती सत्यवती एषा शिक्षिका एषा भक्ता एषा माला एषा सेना एषा द्विचक्रिका एषा लता एषा गुलिका एषा गीता सा गायत्री सा दूरवाणी सा द्रौपदी सा इत्युक्ते सर्वेषां शब्दानां विशेषता का सर्वे शब्दाः स्त्रीलिङ्गे स्त्रीलिङ्गे शब्दाः तत्र आकारान्तस्त्रीलिङ्गे शब्दाः तथैव ईकारान्तः एवं सी इन्डैरेक्ट्लि बै गिविङ्ग् रेफरेन्सेस् फ्रोम् महाभारत दे आर् मेटिङ्ग् अस् फेमिलियर् वित् ग्रामेटिकल्स्पेक्ट् अतः तत्र शिक्षिका भक्ता भक्ता इत्युक्ते भक्तः पुल्लिङ्गी भक्ता इत्युक्ते श्रीलिङ्गी माला गुलिका गायत्री घटी सत्यवती एवं सर्वं मादरी द्रौपदी एवं सर्वमस्ति एतदपि करोतु भगिनि तत् न पुस्तकलिङ्गी अस्ति ओके एतत् चक्रं च्यन्दनम् इत्युक्ते रथ रथं चे अत्र रथ रथ इति पुल्लिङ्गि शब्दः परन्तु रथ स पर्यायवाचि शब्दः यत् स्यन्दनमस्ति तत् नपुषकलिङ्ग् oh, okay. okay. वस्त्रं नारिकेलं द्वारं व्यजनं कन्दुकं दूरदर्शनम् गाण्डीवं कवचम् hmm. एतत् वस्त्रम् एतत् नारिकेलम् एतद् द्वारम् एतत् व्यजनं तत् कन्दुकं तद् तत दूरदर्शनं तद् तत गाण्डीवं तत् कवचम् hmm. hmm. इत्युक्ते इदानीं के के अंशाः वयं दृष्टवन्तः सः तत् एषः एषा एतत् दूरे समीपे पुल्लिङ्गे श्रीलिङ्गे नपुसकलिङ्गे अतः तत्र सम्भाषणवर्गस्य प्रथमः स्तरः अनन्तरं द्वितीयस्तरः गीताशोपा अत्र पश्यन्तु यत् वयं कृतवन्तः श्रीलिङ्गि पुल्लिङ्गि अनन्तरं समीपे दूरे तत्र सर्वे अंशाः अत्र एकत्रिताः अस्ति खलु अतः तत्र प्रथमस्तर अनन्तरं द्वितीयस्तर गीतासोपानं प्रथमं भागम् इति अस्ति प्रथमम् अस्तु अस्तु अस्तु धन्यवादः भगिनी धन्यवादः धन्यवादः अग्रिमे जयन्ती भगिनी वदति वा वदामि हा अत्र कः अंशः तत् पश्यामः अत्र अस्ति पुल्लिङ्गि शब्दस्य पुल्लिङ्गिशब्दस्य एकवचन द्विवचन बहुवचनं विभक्ति प्र प्रथमा एव हा पश्यन्तु प्रथमः अंश प्रथमाविभक्ति प्रश प्रथमाविभक्ति पुल्लिङ्गि श्रीलिङ्गि बहु पुल्लिङ्गिस्त्रीलिङ्गि नपुसकलिङ्गि इदानीं प्रथमाविभक्तिः एव परन्तु एकवचनं द्विवचनं बहुवचनं एवमस्ति तत्र कः कौ के इति दृश्यते कः इति प्रश्नार्थकः कः अस्ति कौ स्तः के सन्ति अहं किं कृतवती क्रियापदस्य अपि योजनाम् अत्र कृतवती कः अस्ति हु इस् देर् कौ स्तः द्विवचनं वदति वदतः अस्ति के सन्ति वदन्ति पठन्ति गच्छन्ति सन्ति के सन्ति एव उच्चैः पठतः लिखत च एषः अश्वः एतौ अश्वौ एते अश्वाः एषः अश्वः एतौ अश्वौ एते अश्वाः एषः ग्रामः एष एतौ ग्रामौ एषः शूरः एतौ शूरौ एते शूराः एषः गौरवः गौरवौ एते गौरवाः एषः पाण्डवः एतौ पाण्डवौ एते पाण्डवाः सः mm. uh, सैनिकः mm. तौ सैनिकौ ते mm. सैनिकाः mm. सः रतः तौ mm. रतौ ता ताः रताः सः mm. यज्ञः तौ यज्ञौ ताः यज्ञ, यज्ञ, ते ते सैनिकाः ते रताः ते यज्ञाः सः योधः तौ योधौ ते योधाः सः वीरः तौ वीरौ ते वीराः सः समा सारि सः महारतः तौ महारथौ सः तौ ते एषः एतौ एते अश्वः अश्वौ अश्वाः एवमस्ति सर्वेषु स्थलेषु तत्र पुल्लिङ्गी रूपाणि एव सन्ति परन्तु भेदः कः एकवचन द्विवचन अस्तु एकं वदामि अस्माकं वर्गमध्ये ऐ मीन् मम सख्यः अपि योजन् योजन् योजन्तवन्तः योज ताः अपि योजितवन्तः योजितवन्तः ताः अपि वक्तुं शक्यते चेत् वक्तव्यं इन्ट्रोड्यूस् देम् बेनि तत्र ते सर्वे मेल् प्रेषितवन्तः वा आं प्रेषितवन्तः बेनि प्रेषितवन्त hmm. उत्तरं hmm. प्राप्तवन्त वा तत्र किमस्य उत्तरे रज अच्छा सर्वे hmm. सर्वे महिलाः सन्ति वा ओके अस्तु अस्तु हा हा हा अस्तु अहं पश्यामि अनन्तरं तेषामपि प्रश्नान् पृच्छामि हा अस्तु अस्तु तेषां तासामपि प्रश्नान् पृच्छामि सर्वे महिलाः hmm. <laughs> अस्तु अस्तु धन्यवादः इदानीं किमस्ति गदा एषा गदा श्रीलिङ्गिशब्दः अत्र अस्ति श्रीलिङ्गिशब्दा अत्र अनिता भगिनी भवती पठति वा अस्ति वा श्रीलिङ्गिशब्दः पठतु एकनिमिषम् किञ्चित् आदौ तत्र oh. उपरि का के oh. काः इति दृश्यते hmm. का के काः प्रश्नार्थ कः कौ के प्रश्नार्थ कः अस्ति कौ स्तः के सन्ति तथैव अत्र परिवर्तनं भवति वा अत्र श्रीलिङ्गे अस्ति परन्तु परिवर्तनं का अस्ति के काः सन्ति तत्र परिवर्तनं न भवति यतो हि सर्वे प्रथमपुरुष प्रथमपुरुष एकवचन प्रथमपुरुषद्विवचन प्रथमपुरुष बहुवचन एवं परन्तु रूपे तत्र परिवर्तनं दृश्यते का के कः इति दृश्यते इदानीं पठतु श्रीलिङ्गिशब्दाः हा एषा गदा एते गदे एताः गदाः वैद्या एते वैद्ये एताः वैद्याः एषा वैद्या एते वैद्ये एताः वैद्याः सा नदी ते नद्यौ ताः एषा भक्ता एते भक्ते एताः भक्ताः सा कोऽपि ते कु ते कुप्यौ hmm. ताः ता कुप्याप्यः एषा hmm. बालिका एते बालिके एताः बालिकाः hmm. सा सूची ते सूच्यौ सुच, ताः सूच्यः एषा लता एते लते एताः लताः सा जननी ते जनन्यौ ताः जनन्यः एषा सेना एते सेने एताः सेनाः सा चालनी ते चालन्यौ ताः चालन्यः yeah. एषा भेरी एते भेरे एताः भेराहा ते भगिनी एषा एषा भेरी एषा तत्र एषा भेरी एते भैर्यौ भैर्यौ एषा भैरी एते भैर्यौ एताः ौ ताः भगिन्यः सम्यक् एवमस्ति समीपे अस्ति चेत् एषा त्रिलिङ्गि त्रिलिङ्गि एकवचन एषा द्विवचन एते बहुवचन एताः दूरे अस्ति चेत् सा एकवचन ते द्विवचन चनम् एवमस्ति धन्यवादः अनिता भगिनी इदानीं तत्र दृश्यते धनामिति दृश्यते गीता इति दृश्यते कारपाकमिति दृश्यते अनन्तरं कनान् इति दृश्यते शानुमुगा इति दृश्यते तत्र श्रूयते वा मम ध्वनि श्रूयते वा हा हा श्रूयते श्रूयते वदतु बेनी गीता शिवकुमार् रमा बेनी भगिन्यौ मम सहपाटिका आसीत् बेनी गीतायमपि गीता रमा सम्यक् जाना जानन्ति ते सम्यक् जान् जानन्ति न् इफ् दे वान् दे केन् अन्म्यूट् अन् टेल् बेनि भगिनी तत् कानम् इमेल् द्वारा तत्र एण्ट्रि अस्ति परन्तु तत्र तस्याः नाम किं कानन् इति इमेल् दृश्यते कन्नन् अन्बलगन् तस् ऐ मीन् फिमेल् ऐ डि तस् तस्याः नाम लक्ष्मी लक्ष्मी हा तत् लक्ष्मी इति हा लक्ष्मीभगिनी अस्ति सीताभगिनी अस्ति अनन्तरं षण्मुगवडिव् षण्मुगवडिव् एव नामोर् कर्पकं यां नोकम् आ, रमा भगिनी अपि जानाति संस्कृतं सम्यक् जानाति शान्तामणि रमा भगि शान्ताम्मा न जानाति एवम् अस्माकं संस्कृतं सम्भाषणं शृणोमि शु, इति आगतवती अतः का भगिनी न जानाति शृणोमि इति आगतवती तस्याः नाम किं शान्तामणि शा शान्तामणि हा तत्तु शान्तामणि रमा लक्ष्मी Hmm. Hmm. अनन्तरं गीता अस्ति अनन्तरं लक्ष्मी रमा शान्तमणि गीता ते ऐ मीन् ताः सर्वाः इदानीं प्रवेशपरीक्षा लिखितवत्याः तत तत्तु ते सर्वं जानाति <laughs> उत्तममस्ति उत्तमम् अस्ति अतः सर्वेषां रमा लक्ष्मी शान्तमणि गीता भगिनी सर्वेषां स्वागतम् अस्माकं वर्गे हलो धन्यवाद भगिनी पश्यन्तु इदानीं जयन्ति भगिनी अस्माकं वर्गे तत्र रमा साक्षात् रमा आगच्छति लक्ष्मी आगच्छति राधा तु अस्माकं समीपे आसीत् एव राधा तु अस्ति एव तत्सर्वे बहवः धन्यवादः कर्पकवृक्षमपि अस्ति गीता भगवद्गीता अस्ति सर्वे अत्र सम्मिलिताः धन्यवादाः प्रथमता रमा भगिनी वदति वा रमा भगिनी पठति वा किं किमपि विषये अस्तु अस्तु भगिनि एतत् फलम् एते फले एतानि फलानि एकनिमिषं तत्र तत्र के कानि इति उपरि दृश्यते पश्यन्तु सर्वे एकवारं कः कौके पुल्लिङ्गि का के कःलिङ्गि किं के कानि तत्र नपुतकलिङ्गि किं अस्ति सः कानि सन्ति क्रियापदेषु भेदः परन्तु भेदः कुत्र वर्तते पुल्लिङ्गे स्त्रीलिङ्गे नपुसकलिङ्गे एकवचने द्विवचने बहुवचने तत्र इदानीं पठतु भगिनी रमापठतु अस्तु भगिनि एतत् फलम् एते फले एतानि फलानि एतत् चक्रम् एते चक्रे एतानि एतानि एतानि एते पुस्तके पुस्तकानि, एते याने एतानि यानानि, यात मुखं एक मुखे एकता मुखा एते नगरे एतानि नगरा तत्म ते नक्षत्रे नक्षत्रा उपनेत्रम, ते, ते, उपन, <tast entendles> ते उपनेत्रे उपने उपनें स्पेक्स ते उपनेत्रे, तानि उपनेपने उपने तत्मरा उपनेत्राणि तत् पत्रं ते पत्रे तानि पत्राणि तत् शस्त्रं शस्त्र पर्णं सारी तत् पर्णं ते पर्णे तानि पर्णानि तत् शस्त्रं ते शस्त्रे तानि शस्त्राणि तत् चित्रं ते चित्रे तानि चित्राणि तत् फलं ते फले तानि फलानि तद् बलम् इति अस्ति तद् बलं तद् फलं बलम् ओप् नाट् फलानि अस्तु तद् बलं फे <laughs> फले बलं स्थानि बलानि बलानि इति धन्यवादः भगिनि अत्र अवधेयमिति समरी रूपेण तत्र दत्तमस्ति अकारान्तपुल्लिङ्गः आकारान्तस्त्रीलिङ्गः ईकारान्तस्त्रीलिङ्गः अकारान्तनपुसकलिङ्ग अकारान्तपुल्लिङ्ग यादवः यादवौ यादवाः अकारान्तस्त्रीलिङ्ग सेनासेने सेनाः ईकारान्तश्रीलिङ्ग महि मह्योमय्यः महि इत्युक्ते पृथ्वी महिमय्योमय्यः महीपति इत्युक्ते राजा मही इत्युक्ते पृथ्वी अकारान्तरपुस्तकलिङ्ग सुखं सुखे सुखानि एवमस्ति इदानीं लक्ष्मीभगिनी भवती एकवारं तत् अवधेयं पठति वा स्टालिका एकवारं लक्ष्मी यल्लिङ्गकवचनम् यीवचनम् यादव बहुवचनम् यादव, यादव <laughs> <आगा। आगा। laughs> एक बहु <laughs> <laughs> स्त्रीलिङ्ग् एकवचनम् सेना सेने सेना स्त्रीलिङ्गः मही मह्यौ मह्यो मह्योः न पुंसकलिङ्गः सुखं सुखे सुखानि सम्यक् अग्रं तत्र अभ्यासः वर्तते तत्र एकवारं पठतु तत् किं दत्तमस्ति कोष्टकयोः तत् पठति वा लक्ष्मी अङ्ग्लदा केक्रान् पठिक्रीङ्ग्लान् हो... ब्दान् शब्दान् स्वीकृत्यहरणं वाक्यानि रचयत रचयत रचयत रचयत रचयत एषः एतौ एते शौ ते एषा एते एताः सा ते ताः एतत् ता एते एतानि तत् ते तानि नार्य नर्तक्यः नर्तक्यः गीतम् आभरणानि उपन्यासः जनभाषा जनभा जनभाषा यात्रे सारि पात्रे पात्रे कूप्यः मापिके प्रकोष्ठ प्रकोष्ठौ घण्टः गुलिका, गुलिका ताला ताल तालाः नुषा स्नुषा स्नुषा स्नुषा तादौ सेवकः सेवकाः सन् सङ्घ सङ्गा सङ्गाः शङ्खा शङ्खाः खलु लोकयानानि मामकाः ग्रामः ग्रामाः पर्णानि गत्यौ गद्यौ श्लोकाः श्लोकाः अभ्यास अभ्यासाः सूच्या सूच्याः सूच्यः शाटिका आसन्तं सारि आसनं माला वस्त्रं वस्त्रे वस्त्री वस्त्री वस्त्रे वस्त्रे पाण्डवौ mm. पाण्डवा mm. सारि पाण्डवा no, पाण्डवौ तदेव पाण्डवौ एवमस्ति पाण्डवौ uh, द्रौ द्रौपद्याः द्रौपद्याः नाय नायकः ह्यः सम्यक् भगिनी उत्तमं धन्यवादः धन्यवादः इदानीं कहा भगिन्यः शेषाः जयन्ति भगिनी रमा भगिनी उक्तवती लक्ष्मीभगिनी उक्तवती इतोपि गीताबेगिनी और् शान्मुखवडी त्रीणि तिस्रः भगिन्यः काल् डेम् वन् बै वन् नौ किं करणीयमस्ति अद् इदानीम् अस्माकम् अन्तिमः भागः तत्र नर्तक्यः इति अस्ति नर्तक्यः इत्युक्ते किं नर्तकीशब्दस्य बहुवचनान्तरूपम् इकारान्तः स्त्रीलिङ्गः बहुवचन प्रथमशक्ति बहु सम्यक् तत् नर्तक्यः भवति चेत् ताः नर्तक्यः वा एताः नर्तक्यः इति भवति तेषां किं करणीयमस्ति सर्वेषां वदामि किं करणीयमस्ति पञ्चपञ्चशब्दाः तत्र नर्तक्यः एका भगिनी नर्तक्यः गीतम् आभरणानि उपन्यास जनभाषा एकमेकं एकम शब्दाः स्वीकृत्य नर्तक्यः ताः नर्तक्यः गीतम् एतत् किमपि ना। सर्वनाम पदानि उपयुज्य रचय पञ्चपञ्च Uh, uh, पञ्चवाक्यानि वदतु बेनी? ऐ मीन् फैव् वर्ड्स् स्वीकृत्य हितबेणी नर्तक्यकसमानसर्वनामशब्दम् उपयुज्य वाक्यं वदतु एषः नर्तक्यः हा तत्र भगिनि एषः न भवेत् किमर्थं नर्तकी इति श्रीलिङ्गी नर्तकी चेत् एषा एताः नर्तक्यः अनन्तरं न तत् अस्ति न पुसकलिङ्गि एतद्गीतम् ओके नो बै ऐ हे टु से आल् द्री इन् दिस् नो ओके एतत् गीतं आभरणानि सा आभरणानि आभरणानि वा एतानि आभरणानि आभरणं नपुसकलिङ्गि नपुसकलिङ्गी अस्ति चेत् आब एतानि आभरणानि अग्रिम उपन्यासः एषः उपन्यासः सम्यक् उत्तमम् अग्रिमे जनभाषा एतद् जनभाषा जनभाषा त्रिलिङ्गि एषा जनभाषा सा जनभाषा इति तत् पीडि प्रेषितवती अस्माकं गणे अस्ति भवतः सर्वे भवत्यै सर्वे किं कुर्वन्तु सर्वे मां तत् जयन्ती भगिनी मां तेषां मोबैल् नम्बर् दूरध्वनि क्रमाङ्कं प्रेषयतु अस्तु भगिनी तत्र गणे अपि तेषां स्थापयामि तासां स्थापयामि अग्रिम अग्रिम भगिनी गीताबेनि म्यूट् कुर्वन् करोतु तत्पहं भगिनि वदतु तत्पहमका पात्रे त हा आरंभ करतो हे ना कोणत्या कोणत्यासाठी सांगू आपण पात्रे पात्रे त हा बट पात्र सलामत आ पात्रयलेरंदु सोळुंगा का अदोडय सर्वनाम शब्द युज பண்ணु तत पात्रे पात्रं पात्र पात्रे द्वितीयः अस्ति ते ते पात्रे वा एते पात्रे इति एते पात्रे किमर्थ पात्रं पात्रे पात्राणि इति अस्ति ते पात्रे अनन्तरं कुप्यः किं भवति कुप्यः कूपी इति श्रीलिङ्गे नदीनद्यो नद्यः ताः कुप्यः इति भवत्य सम्यक् अनन्तरं प्रकोष्ठौ तौ प्रकोष्ठौ सम्यक् तौ प्रकोष्ठौ सः तौ ते एषः एकौ एते पुल्लिङ्गी अन्तिमं कण्ठः करोतु कण्ठः कण्ठः सः कण्ठः सः कण्ठः एषः कण्ठः कण्ठः सम्यक् भगिनी अग्रिमा का भगिनी ते भगिनी आह्वयतु कृपया आं बेहिनी आगच्छतु अस्तु अग्रिमवर्गे वदति इति उक्तवान् अस्तु अस्तु अग्रिमे अस्माकं पश्यन्तु अम्बिकापतिमहोदय भारतमहोदय ओगस्ट् महोदय वीणा भगिनी हा अम्बिकापतिमहोदय गुलिकातः आरम्भं करोति वा गुलिकाः गुल एते गुलिके एताः गुलिकाः एताः गुलिकाः योग्यम् अनन्तरम् एष तालाः एते तालौ ता, ताले एताः तालाः हा तत्र किमस्ति तालः इति तालः इति त्रि लाक् इति तत् पुल्लिङ्गे अस्ति तदा सः तालः वा एषः तालः एतौ वा तौ तालौ हा एते तालः वा ते तालः तालः लाक् इति पुल्लिङ्गे अस्ति हा अग्रिमे स्नुषा स्नुषा स्नुषा एषा स्नुषा एते एताः अस्तु वा रथौ रथौ एतौ रथौ एषः रथः एतौ रथौ एताः एते रथे एते रथाः रथाः रथाः इति खलु रथः पुल्लिङ्गि रामः रामौ रामः रथः रथौ रथाः रथा <coughs> अग्रिमेवकाः एषा सेवकाः एते सेवके एताः सेवकाः न तत्र सेवकः इति पुल्लिङ्गि तत्र सेविका नास्ति श्रीलिङ्गि सेविका सेवकः इति पुल्लिङ्गी एषः सेवकः एतौ सेवकौ एते सः सेव सेवकः सेव सेव एवं खलु पुनः <laughs> एकवारं तस्य पठनं कुर्वन्तु अभ्यासरूपेण तत् अवगमनं भवति सुल सुलभतया तत्र काठिन्यं नास्ति किल धन्यवादः महोदय धन्यवादः अग्रिमे आगस्ट् महोदय भवान् वदति वा शङ्खाः अतः अस्तु भगिनि एताः भीर्यः ah, भी का का भीर्यः लोकयनानि एतानि लोकयनानि लोकयनानि सम्यक् एते मयकाः ते मयकाः मामकाः मामकाः तत्र प्रथमं श्लोक प्रथमः एव धर्मक्षेत्रे कुरुक्षेत्रे समवेता युत्सवा मामकाः पाण्डवाश्चैव किमकुर्वत् संजय भगवद्गीतायाः तत्र कुरुक्षेत्रे महायुद्धस्य तत्र महाभारतयुद्धस्य कारणं किं प्रथमे श्लोके एव उक्तं मामकाः मम एषः मम आ, मम अस्ति मामकाः मामकाः पाण्डवाः धृतराष्ट्रः तत्र ज्येष्ठपुरुषः गुरूणां ज्येष्ठपुरुषः सः अपि भेददृष्ट्या वदति एते सर्वे मामकाः ते सर्वे पाण्डवाः एवं युद्धस्य कारणं तत्र एव वर्तते खलु मामकाः मम अस्माकं तस्मात् शङ्खाः भैर्यः लोकयानानि मामकाः अन्तिमं ग्रामा अपि करोति वा सम्यक् उत्तममस्ति ग्रामाः शङ्खाः भैर्यः लोकयानानि मामकः ग्रामः अस्तु धन्यवादः महोदय अग्रिमे विना भगिनी करोति अनन्तरं भारतमहोदय वीणा भगिनी पर्णानि अस्तु हा भगिनि एतानि पर्णानि सम्यक् भट्यौ वाट्यौ एते घट्यौ लिङ्गिका पुलिङ्गी नदीनद्यौ नदीनद्यौ नद्यः घटिघट्यौ घट्य घटि वाच् इति घटि हा अस्तु भगिनि हा श्लोकाः श्लोकाः पुलिङ्गि वा श्लोकाः पुलिङ्गि श्लोक श्लोकाः एते श्लोकाः सम्यक् अग्रिमे अभ्यासाः अभ्यासाः अपि पुलिङ्गि वा पुल्लिङ्गी अभ्यासः इति पुल्लिङ्गभ्यासाः वा ते अभ्यासाः सम्यक् सूच्यः सूच्यः सूची स्त्रीलिङ्गिः एते सूच्य एताः सूच्य एते एते सूच्यः शुच्यः इत्युक्ते किं भगिनि सुचि तत् मार्क् इति शुचि इति तत्र मेजरिङ्ग् मापि इण्डिकेटर्तु सैन् बोर्ड् इति सूचनं भवति सूचनं भवति किल बेन सूचनं तत्र सुचि इति प्रातिपदि मूलशब्द तत् नदीनद्यौ तत् स्त्रीलिङ्गिकस्ति नदी नद्यौ नद्यः एता एताः वा एताः त्रीलिङ्गे ईकारान्त शुचि इति एकारान्ते भवेत् चेत् कथं भवति ईकारान्त भवेत् चेत् एषा एते एताः एताः एता शुच्यः नो चेत् ताः शुच्यः एवं भवति अस्तु भगिनि अस्तु अस्तु धन्यवादः धन्यवादः भारतमहोदय करोति वा करोतु शाटिकाः शाटिका एषा शाटिका सा शाटिका आसनम् एतत् आसनम् तत् आसनम् उत्तमं सम्यक् माला एषा माला सा माला वस्त्रे स्वस्त्रम् नपुसङ्कलिङ्गस्त्रे सम्यक् उत्तममस्ति पांडवो, पाण्डवौ पाण्डव पाण्डवः सो पुलिङ्गे एतौ पांडवो, बहु सम्यक् महोदय एतौ पाण्डवौ तौ पाण्डवौ उत्तममस्ति महोदय उत्तमम् अस्तु अधुना राधाभगिनी द्रौपदेयाः तः धन्यवादः महोदय भारतमहोदय उत्तममस्य. अस्ति द्रौपदेयाः तः करोति वा आ, आ, आ, राधा द्रौपदेयाः एताः ताः द्रौपदेयाः भगिनी तत्र द्रौपदेयः इत्युक्ते द्रौपदी द्रौपदी माता तस्याः पुत्राः द्रौपदेया पञ्चपुत्राः सन्ति खलु पञ्चपुत्राः सन्ति ते सर्वे द्रौपदेयाः भगिनी तत्र तद्धि प्रत्यय वर्तते द्रौपदी द्रौपदेः पुत्रं पुत्राः द्रौपदी इय आगच्छति तत्र द्रौपदीय इति तद्धि प्रत्ययः तर्हि तस्य तति प्र ततितं द्रौपद्या अपौत्यं पौत्रा पुत्राः द्रौपदेयाः इति खलु तत् तत्र इय अनन्तरं सन्धिनियमानुसारौपदेय इति सत्यं सत्यं सः नायकः एषः नायकः हया हया इत्युक्ते किम् अश्वः हयः इत्युक्ते अश्वः अश्व ओके okay. ओके सो इट् इट्स् नपुंसकलिङ्ग सोरि पुल्लिङ्ग् एते हयाः ते हयाः एषः पितामहः सः पितामहः एते स्यान्दने ते स्यान्दने उत्तमं विकुलिङ्ग एतत् संस्कृतगृहं तत् संस्कृतगृहम् उत्तमम् अस्ति भगिनी हयाः एकवारं वदति वा हयाः तत्र हयः हयः इत्युक्ते अश्वः एकः अश्वः हयः हयः हयः इत्युक्ते पुल्लिङ्गि वा पुल्लिङ्गि पुल्लिङ्गि हय इति पुल्लिङ्गि हयाः भवति चेत् तत्र पुल्लिङ्गी बहुवचनान्तपदं हयाः धन्यवादः धन्यवादाः सर्वेषां धन्यवादाः वयं समापयामः पश्यतु अत्र वयं सर्वेषां पुरतः तत् पी डि एफ़् अस्ति इति तत् एवं सर्वं वयं कृतवन्तः द्वितीयः पुरुषः सः इत्युक्ते प्रथमा विभक्तिः स्त्रीलिङ्गि पुल्लिङ्गि नपुसकलिङ्गि एकवचन बहुवचन एकवचनं द्विवचनं बहुवचनम् इति तस्य अध्ययनं वयं कृतवन्तः पुनः एकवारं सर्वे पठन्तु रेकार्डिङ्ग् अपि शृण्वन्तु एकवारं पठन्तु इदानीं वयं समापयामः अन्तिमं अत्र एतत् अस्माकं श्लोकः एषः श्लोकः जयन्तिभगिनी गायति वसुदेवसुतं वसुदेवसुतं देवं कंसचानूरमदनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् धन्यवादः धन्यवाद धन्यवादः धन्यवा धन्यवादः पुनर् धन्यवादः भगिनी मया एकं प्रश्नः अस्ति हा पृच्छतु अद्यदिन वर्गे कथं न भवति वा अद्यदिनम् अहं किं कृतवती तत्र श्लोक किञ्चित् परिवर्तनं कृतवती तत्र श्लोकस्य आधारेण प्रथमा विभक्ति इति मम मनसि विचारः आसीत् अग्रिमे वर्गे कुर्मः अस्तु अस्तु भगिनी न त्यजामः परन्तु अतः एव अतः एव सर्वे इष्ट इष्टं भवति वयं सर्वे रुचिकरमपि भवति रुचिकरं रुचिकरमपि सत्यं कुर्मः कुर्मः किन्तु परन्तु तत्र व्याकरण अंशमपि तत्र अंशः अपि पठनं भवेत् इति विचिन्त्य अहम् अद्यदिने कथां न श्रु स्वीकृतवती परन्तु अग्रिमे वर्गे निश्चयेन भव भविष्यति कथा धन्यवादः धन्यवादः पुनः